नारदपुराणं पूर्वार्थम् अध्यायं तर्टिवन् नारद उवाच कथितो भवदा सम्यक् वर्णाश्रमविधिर्मुने इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् सनक उवाच शृणु विप्रवक्ष्यामि यममार्गं सुदुर्गमम् सुखदं सुखदम्पुण्यशीलानां पापिनां भयदायकम् सहस्राणि योजनानि मुनीश्वर यममार्गस्य विस्तारकथिदः पूर्वसूरिभिः येन राधानशीलास्तु ते यान्दिसुखिनो द्विज धर्मशून्यानरा यान्ति दुःखेन भृश्यमर्पिताः अधिभेदा विवस्त्राश्च शुष्ककण्ठौष्ठतालुकाः क्रदन्तो विस्तरं दीनापापिनो यान्ति तत्पथी हन्यमाना यमभटैः प्रदोदाद्यैस्तथा युधैः इदस्ततः प्रधावन्दो यान्ति दुःखेन तत्पथि क्वचित् पङ्ख क्वचिद्धूस्नि क्वचित् चेत्तप्तसैकतं क्वचिद्वै दावरूपेणः तीक्ष्णधारा शिला क्वचिद क्वचिद् कण्टकवृक्षाश्च दुःखारोहशिलानगाः गण्डान्धकाराश्च गुहाकण्टकावरणमहत पप्राग्र आरोहणं चैव कन्दरस्य प्रवेशनं शर्कराश्च तथा लोष्टासूजीतुल्याश्च कण्टकाः शैवालं चक्वजिन्मार्गे क्वजित्कीचकपङ्क्तयः क्वजिद्याव्राश्च गर्जन्दे वर्धन्ते चक्वजिज्वराः एवं बहुविधक्लेशाः पापिनो यान्ति नारद क्रोश्यं तश्च रुदन्तश्च म्लायं तश्चैव पापिनः पाशे न यन्द्रिधा केचित्कृष्यमाणास्तथाङ्गुशैः शास्त्रास्त्रैस्ताड्यमानाश्च पृष्ठदो यान्दिपापिनः नासाग्रपाशकृष्टाश्च केजिदन्त्रैश्च बाधिताः क्वहं तश्चायसं भारम् शिश्राग्रेण प्रयान्ति वै अयो भारद्वयं के जिन्ना साग्रेण तथा परे कर्णाभ्यां च तथा केचिद्वसन्दो यान्ति पापिनः केचिच्चस्खलिदा यान्ति ताड्यमानास्तथा परे अत्यर्थो चङ्वत्सिदा के केचित् के जिदाच्छत्रलोचनाः छायाजलविहीनेदुपधियाद्यधिदुःखिताः शोचन्दस्वानि कर्मणि ज्ञानाज्ञानकृतानि च ये तु नारदधर्मिष्ठा दा दानशीला सुबुद्धयः अतीव सुखसम्पन्नास्ते यान्ति धर्ममन्दिरम् अन्नदास्तु मुनिश्रेष्ठभुञ्जं तस्वादु यान्ति वै निरदा यान्ति सुखिनः पिबन्तः क्षीरमुत्तमं तक्रथा दधिदादश्चैव तत्तद्भोगं लभन्ति वै मधुदाश्चैव क्षीरादश्च क्षीरदाश्च द्विजोत्तमा सुधापानं प्रकुर्वन्तो यान्ति वै धर्ममन्दिरं शाकदास्पायसं भुञ्जं दीपदोज्ज्वलयन् दिशः वस्त्रदो मुनिशार्दूल यादिव्याम्बराहृतः पुराकरप्रदो यादिस्तूय मानोमरैःपदी गोदानेन नरो यादि सर्वसौख्यसमन्वितः भूमिदो गृहदश्चैव विमाने सर्वसम्पदि अप्सरो गणसङ्कीर्णे क्रीडन्यादिवृषालयम् अयदो यानदश्चापि गजदश्च द्विजोत्तम धर्मालयं विमानेन यादि भोगान्वितेन वै अनडुद्धो मुनिश्रेष्ठ यानारूढप्रयाति वै फलदपुष्पदश्चापि यादिसन्तोषसंयुधः ताम् नरो यादिप्रहृष्टो धर्ममन्दिरम् मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः सयादिपरितुष्टात्मा पूज्यमानो दिविष्टितैः शुश्रूषां कुरु दे यस्तु यदीनां व्रतचारिणाम् द्विजाग्र्यब्राह्मणानां च स यात्यादि सुखान्विदः सर्वभूतदयायुक्तपूज्यमानो मरैर्द्विजः सर्वभोगान्वितेनासौ विमानेन प्रयाति च विद्यादानरदोयादिपूज्यमानोऽब्जसूनुभिः पुराणपठको यादिस्तूयमानो मुनीश्वरैः एवं धर्मपरायान्ति सुखं धर्मस्य मन्दिरं यमश्च दुर्मुखो भूत्वा शङ्खचक्रगदाश्रिभृद पुण्यकर्मरथं सम्यक् मित्रमिवार्चदि भो भो बुद्धिमदां श्रेष्ठ नरगक्लेशभैरवः युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहं मनुष्यजन्म यः प्राप्य सुकृतं न करोति च स एव पापिनां श्रेष्ठ आत्मकादं करोति च अनित्यं प्राप्य मानुष्यं नित्यं यस्तु साधयेद सयादि यादि नरकं कोरं को शरीरं यादनारूपं मलाध्यै परिदूषितं तस्मिन् यो यादि विश्वासं तं विद्यादात्मकादकं सर्वेषु प्राणिनः श्रेष्ठास्तेषु बुद्धिजीविनः बुद्धिमस्तु नरा श्रेष्ठा नरेषु ब्राह्मणास्तथा ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः कृतबुद्धिषु कर्तारकर्तृषु ब्रह्मवादिनः ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते एतेभ्योऽपि परोज्ञेयो नित्यं ध्यानपरायणः तस्मात् सर्वप्रयत्नेन कर्तव्यो धर्मसङ्ग्रहः सर्वत्र पूज्यते जन्तु धर्मवान्नात्र संशयः गच्छस्व पुण्यार्थस्थानं सर्वभोगसमन्वितम् अस्ति चेत् दुष्कृतं किञ्चित् पश्चादत्रैव भोक्ष्यसे एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम् आहूय पापिनश्चैव कालदण्डेन प्रलयां प्रलयाम्बुदनिर्घोषो ह्यजनाद्रि समप्रभः विद्युत्प्रभायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुधः योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः दंष्ट्राकरालवदनो वापि तुल्योऽग्रलोचनः मृत्युज्ज्वरादिभिर्युक्तश्चित्रगुप्तोऽपि भीषणः सर्वे दूताश्च गर्जन्ति यमतुल्यविभीषणाः तदो ब्रवीदि तान् सर्वान् कम्पमानांश्च पापिनः शोचन्दस्वानि कर्माणि चित्र गुप्तो भो भोभो पापा दुराचारा अहङ्कारप्रदूषिताः किमर्थमर्जितं पापं युष्माभिरविवेकिभिः काह्म क्रोधादिदृष्टेन सगर्वेण दुचेतसा यद्यत्पापतरं तत्तत् किमर्थं चरितं जनाः कृदवन्दः पुरा पापान्यत्यन्तहर्षिताः तथैव यादनभोज्या किं वृथास्यदि दुर्यव्रताः भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा तथा कर्मवशात्प्राप्ता यूयमत्रादिदुःखिताः युष्माभिप्रोषिता ये दुपुत्राद्या अन्यतो गताः युष्माकमेव तत्पापं प्राप्तं किं दुःखकारणं यथा कृतानि पापानि युष्माभिः सु बहूनि वै तथा प्राप्तनि दुःखानि किमर्थमिह दुःखिताः विचारयध्वं यूयन्तु युष्माभिश्चारितं पुरा यमकरिष्यदे दण्डमिति किं न विचारिदं दरिद्रेऽपि जूर्खे च पण्डिते वा श्रियान्विते कान्दिशीके च वीरे च समवर्तीः यमस्मृदः चित्रगुप्तेरिदं वाक्यं श्रुत्वा दे पापि शौचं तस्वानि कर्माणि तूष्णीं तिष्ठन्ति भीषिताः यमाज्ञा कारिण क्रूरश्चण्डादूदाभयानकाः चण्डालाद्या प्रसह्यैतान् नरकेषु क्षिपन्ति च स्वदुष्कर्मफलं देदु उक्त्वान्ते पापशेषदः महीतलं च संप्राप्य भवन्दि स्थावरादयः नारद उवाच भगवन् संशयो जादो मच्चेतसि दयानिधे त्वं समर्थोऽसि तच्छेत्तुं यदो नो ह्यग्रजो भवान् धर्माश्च विविधा प्रोक्ताः पापान्यपि बहूनि च चिरभोज्यं फलं तेषामुक्तं बहुविधा त्वया दिनान्ते ब्रह्मण प्रोक्तो नास्यो लोकत्रयस्य वै परार्धद्विदयान्धेदु ब्रह्माण्डस्यापि संक्षयः ग्रामदानादिपुण्यानां त्वयैव विधिनन्दन कल्पकोडिसहस्रेषु महान्भोग उदाहृदः सर्वेषामेव लोकानां विनाश प्राकृते लये एकशिष्यदये वेदि प्रोक्तं जनार्दनः येष संशयो जादस्तं भवाञ्चेतुमर्हति पुण्यपापोपभोगानां समाप्तिर्नास्य सम्प्लवे सनक उवाच साधु साधु महाप्राज्ञ गुह्याद्गुह्यतमं द्विदम् पृष्ठं तत्तेभिधास्यामि शृणुष्व सुसमाहिदः नारायणोऽक्षरो नन्दः परं ज्योतिःसनातनः विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः निर्गुणोऽपि परानन्दो गुणवानिवभागियः ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिवलक्ष्यते गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन संयोज्यमायामखिलं जगत्कार्यं करोति च ब्रह्मरूपेण सृजति विष्णुरूपेण पाधि च अन्ते च रुद्ररूपेण सर्वमपीति निश्चितम् प्रसयां ते समुद्धाय ब्रह्मरूपी जनार्दनः चराचरात्मगम् विश्वं यथा पूर्वमकल्पयद स्थावराद्याश्च विप्रेन्द्र यत्र यत्र व्यवस्थिताः ब्रह्मा तत्तज्जगत्सर्वं यथा पूर्वं, पूर्वं करोति वै तस्मात् कृतानां पापानां पुण्यानां चैव सत्तम अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलं नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभं यो देवः सर्वलोकानाम् अधरात्मा जगन्मयः सर्वकर्मफलं भुङ्े परिपूर्णः सनातनः योऽसौ विश्वंभरो देवो गुण मे दव्यवस्थितः सृजत्यवधि चात्येतत्सर्वं सर्वभुगव्ययः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरूपणं नाम मै ॐ